चाणक्यनीति अध्याल सानंदम सदनम सुतास्तु सुधीय कांतालानीपूर्तिधनम स्विथिस्वा परा सम शिवपूजनमिष्टापनम गृहे साधो सङ्गमुपासते च सततं धन्यो गृहस्ताश्रमः आर्तेषु विप्रेषु दयान्वितश्च यच्छ्रद्धया स्वल्पमुपैदिदानम् अनन्तपारमुपैदिराजन् यद्दीयते तन्न लभे द्विजेभ्यः दाक्षिण्यं स्वजने दयापरजने षाढ्यं सदा दुर्जने प्रीतिः साधुजने स्मह्यकलजने विद्वज्जने चार्जवम् शौर्यं शत्रुजने क्षमा कुरुजने नारीजने धूर्तता तिथं ये पुरुषा पुरुषाकलासु कुशलास्तेष्वेव लोकस्थितिः हस्तौ दानविवर्जितौ श्रुतिपुटौ सारस्वतद्रोहिणौ नेत्रे साधु विलोकनेन रहिते पादौ न तीर्थम् गतौ अन्यायार्जितवित्तपूर्णमुदरं गर्वेण तुङ्गं शिरो रे रे रे रे रे सहसा नीचं सुनिन्त्यं वपुः ये शाम श्री शोदा सुतपदकमे नास्ति भक्तिर्नराण यक्रियगुणकथने नानुक्ता रसज्ञा यीलीलित रसकथा सादरौ नैव कर्णौ धिक्दान् धिक्दान् धिकेदान् कथयदि सततं कीर्तनस्थो मृदङ्कः पत्रं नैव यदा कलीलविटपे दोषो वसन्तस्य किम् नो लोकोऽप्यवलोकदे यदि वा सूर्यस्य किं दूषणम् वर्षा नैव पतन्ति चादकमुखे मेघस्य किं दूषणम् यत्पूर्वम् विधिना ललाडलिखितम् तन्मार्जितुम् कः क्षमः सङ्कात् भवदि साधूनां न हि खलसङ्कदखलत्वम् आमोदं कुसुमभवं मृदेवदते मृद्गन्धं न हि कुसुमानि धारयन्ति साधूनां दर्शनं पुण्यम् तीर्थभूता हि साधवः कालेन भलदे तीर्थं सद्यः साधु समागमः विप्रास्मिन्नगरे महान् कथय कस्तालद्रुमाणां गणः को दादारचको दतातिवसनम् प्रादर्गृहीत्वा निशि को दक्षपरवित्तदारहरणे सर्वोपि दक्षो जनः कस्माज्जीवसि हे सखे विषप्रिमिन्यायेन जीवाम्यहम् न विप्रपादोदकर्दमाणि न वेदशास्त्रध्वनिगर्जितानि स्वाहास्वथाकारविवर्जितानि श्मशानतुल्यानि गृहाणितानि सत्यं मादापिताज्ञानं धर्मोभ्रादादया सखा शान्तिः पत्नीक्षमा पुत्रषटेते मम बान्धवाः अनित्यानि शरीराणि विभवो नैव नित्यं संनिहितो मृत्युकर्तव्यो धर्मसङ्ग्रहः निमन्त्रोत्सवाविप्रागावो नवतृणोत्सवाः पत्युत्साहयुता भार्या अहं कृष्णचरणोत्सवः मातृवत् परदारेषु परद्रव्येषु लोष्ट्रवद आत्मवत् सर्वभूतेषु यः धर्मे तत्परदा मुखे मधुरता दा, दाने समुत्साहदा मित्रे वञ्चकदा गुरौ विनयदा चित्ते दिमा भीरदा आचारे शुचिता गुणे रसिकदा शास्त्रेषु विज्ञानता रूपे सुन्दरता शिवे भजनदा त्वय्यस्ति भो राघव काष्ठम् कल्पतरुः सुमेरुरचलश्चिन्तामणिःप्रस्तरः सूर्यस्तीव्रकरः शशीक्षयकरः क्षारोहि वाराम् निधिः कामो नष्टतनुर्वलिर्दिदि सुदो पशुपामगौ नैदांस्ते तुलयामि भो रघुपते कस्योपमा दीयते विद्यामित्रम् प्रवासे च भार्यामित्रम् गृहेषु च व्याधितस्यौषधमित्रम् धर्मो मित्रम् मृतस्य च विनयम् राजपुत्रेभ्यः पण्डितेभ्यः सुभाषितम् अनृतम् द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेदकैतवम् अनालोक्यव्ययम् कर्ता अनाधः कलहप्रियः आतुरः सर्वक्षेत्रेषु विनश्यति नाहारं चिन्तयेत् प्राज्ञो धर्ममेकं हि चिन्तयेत् आहारो हि मनुष्याणां जन्मना सहजायते धनधान्यप्रयोगेषु विद्या सङ्ग्रहणे तथा आहारे व्यवहारे सुखी भवेद च्यक्र लज्जसुखी भवद जलबिंदुनि क्रमशः पूरी खट सहेदुस धर्म से धन से वयस परना यल सम्पक्वमपि माधुर्यम् नोपयातीन्द्र वारुणम्